नारायणीयं दशकम् इलवन् मीटर् उपजाति क्रमेण सर्गे परिवर्धमाने कदापि दिव्यासनकादयस्ते भवद्विलोकाय विकुण्डलोकं प्रपेदिरेमारुद मन्दिरेश मनोज्ञनैः श्रेयस काननाद्यैरनेकवापि मणिमन्दिरैश्च अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरदीतकक्ष्याः भवद्दिदृक्षोन् भवनं विविक्षोन्द्वास्थौ जयस्तान् विजयोऽप्यरुन्धाम् ेषां च चित्ते पदमापकोपः सर्वं भवत्प्रेरणयैव भूमन् वैकुण्डलोकानुचितप्रचेष्ठौ कष्टौ युवां दैत्यगदिं भजेतम् इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष कगेश्वरं सार्पित चारुबाहुरानन्दयं स्तानभिराममूर्त्या प्रसाद्यगीर्भिस्तु वदो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ संरम्भयोगेन भवस्त्रिभिर्मामुपेदमित्यातकृपं न्यगादीः त्वदीयभृत्यावध काश्यपाप्तौ सुरायिवीरावुदितौ दितौ द्वौ सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ हिरण्यपूर्वकशिभुक् किलैकः परो हिरण्याक्ष इति प्रतीदः उभौ भवन्नाथमशेषलोकम् रुषान्यरुन्धान्निजवासनान्धौ तयोर्हिरण्याक्षमः सुरेन्द्रो रणाय सलिले निमज्य चचारगर्वाद्विनदन् तदो जले स्यात्सदृशं भवन्तम् निशम्यब्राम गवेषयं स्वां भक्तैकदृश्यस्य कृपानिधेत्वं निरुन्धिरोगान् मरुदालयेश ॐ सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द